मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं सेवन्टीन् युगवरप्रधानम् श्रीगणेशाय नमः शौनक उवाच सुदसूदमहाभागकथां पापापहारिणीं वधसे योगदाम्पूर्णां श्रुत्वा पृष्ठा वयं द्विजा पुराणेषु युगानां तु श्रुत्वा चिह्नानि विस्मिताः महासंशयसंयुक्ता वयं जादा विशेषदः कृते च स्वातन्त्र्यं त्रयतायां ब्रह्मणा द्वापरे संस्कृतं स्वेदकेतुनैकपदिश्रितं गौतमेन गौदमेनकधं शप्ता कृते हल्या महासदी इत्यादि बहवोऽस्माभिर्मार्गा दृष्टा कृते युगे अन्यत्कृतयुगे प्रोक्तं वर्णाश्रमो न विद्यते एकवर्णाश्रमस्थास्थे भवन् सङ्गीर्तिदा जनाः त्रेदायाम् क्षात्रधर्मम् तु चकार प्रपिदामहः तदो भवन्नरावर्णाश्रमस्थास्ते प्रकीर्तिदम् सौरचान्द्र भवौ विप्रद्वापरान्धे स्थितौ नृपौ पुनः कृदयुगे प्राते राज्यं तौ ज करिष्यतः वर्णाश्रमविभागेन वर्तयिष्यन्ति मानवाः किमिदं कौतुकं तत्र विरुद्धवाचकं परं युगधर्मेण नष्टाष्ठा कलौ पापमये क्रियः वर्णाश्रमविभागस्तास्तत्र सिद्धिकुतोऽभवद कलौ चतुर्गुणेनैव कर्मणा सिद्धिमाप्नुयाद नरः सर्वत्र सम्प्रोक्तं कथं तच्च भविष्यति अदो युगभवं सर्वं कथयस्वविशेषदः यथा तद्भ्यं महाभाग सुलभं सुगमार्थकं सुद उवाच युगा नानाविधा प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः तदर्थज्ञो न मुह्येद मदभेदप्रमाणदः तुरीय देहगं केचित्कृतं वदन्ति निश्चितम् त्रेधा सुषुप्तिका स्वाप्नं द्वापरं जागृतं कलिं तत्रात्मा गुणभप्रोक्तो सर्वत्रैको महर्षयः माया सुषुप्तिरूपा सा नानाकारा प्रकीर्तिता तस्यां नानाविधायां न व्यभिचारो भविष्यति यत्र तत्र स्थितं स्वस्य पदीं पश्यति सा शुभा सूक्ष्मं स्थूलं विभिन्नं यत्तया सृष्टं विभागदः। तयो गुणेशचं रूपं तदाकारं विभाति च भिन्नभावात् समुत्पन्ने जागृ स्वप्नेन तयो पदिकलत्रा पदिकलत्रादिव्यभिचारयुतं भवेद् तत्र संस्थापि दातेन मर्यादाश्वेदकेतुना श्वेदं स्वप्नं ध्वजो यस्य श्वेदकेदुस्सवैस्मृतः अनेन युगमानेन ज्ञातव्यं तद्विचक्षणैः नेमे युगा महाविप्राक्कथिता मुनिभिः पुरा ध्यानं कृतयुगं केचिद्यज्ञं त्रेधां वदन्ति च आचारं द्वापरं देह विषयं तत्र ध्याने महाभागा एकवर्णाश्रमो भवेद् ज्ञानं तदेवज्ञातव्यमेकरूपधरं सदा यज्ञकर्ममह्य प्रोक्तस्तत्र वर्णाश्रमो भवेद् अधो वर्णाश्रमाचारस्त्रेदायां परिकीर्तितः एवं नानाविचारेण मुनिभिः कथितं पुरा न तत्र संशयकार्यो जनैस्तदर्थयुक्तिभिः अधुना युगमाहात्म्यं कथयामि समासदः कलौ सिद्धिकरं चैव कर्म येन प्रजायते आदौ ब्रह्मासृजत्कालं धर्मा स चतुर्था भवत्तत्र युगरूपः पुरातन कृतम् त्रेदाद्वापरश्च कलिश्चेदि महर्षयः तेभ्यसिद्धिप्रदानार्थम् ददौ मन्त्रान् प्रजापतिः तम् सर्वे सर्वे तपसेवनमुत्तमम् गणेशं चेदसिद्ध्यात्वा जे पुर्मन्त्रं च निराहारप्रभावेण परितुष्ठो गजाननः भक्त्या तेषां व्ययौ वर्षसहस्रे वरतः पुरः तमागतं समालोक्य प्रणेमुस्ते गणाधिपं पूज्यते तुष्टुवु सर्वे हर्ष गद्गदभाषणाः युगपुरुषावुजुः गणेशाय नमस्तुभ्यं भक्तसंरक्षकाय च नानारूपभृतेतुभ्यं हेरम्बाय नमो नमः भक्तेभ्यः सर्वदायैव भक्तानां नाशनाय च परेशाय पराणां ते पराय च नमो नमः स्वानन्दवासिनेतुभ्यं नाना मायाप्रचारिणे सदा स्वानदम्भोगस्तपालकाय नमो नमः अमेयचक्रयेतुभ्यं नाना मायाप्रहारिणे मायिभ्यो मोहदात्रे वै मायिने दे नमो नमः जम्बोदराय लोकानामुदरस्थाय ते नमः एकदन्दाय शूर्पाकारकर्णाय नमो नमः त्रिनेत्राय गजाकारवक्त्राय परमात्मने चतुर्भुजाय सर्वेषामाजिपूज्याय वै नमः देवाय देवरूपाय देवदेवाय ते नमः देवदेवेशकायैव विघ्नेशाय नमो नमः सर्वेषां ज्येष्ठरूपाय मात्रे पित्रे नमो नमः सततं सर्वपूज्याय ब्रह्मनिष्ठाय ते नमः ब्रह्मणे ब्रह्मणां नाथ ब्रह्मभूय ब्रह्मभ्यो ब्रह्मधात्रे दे शान्धिष्ठाय नमो नमः किं स्तुमस्त्वां गणेशान् यत्र वेदाशिवादयः योगरूपा भवन्ति ततस्ते नमनं शुभं। यवमुक्त्वा प्रणेमुस्ते युगागणपतिं द्विज स तानुवाचप्रीतात्मा भक्तवात्सल्ययन्द्रितः श्रीगणेश उवाच स्तोत्रं भवत्कृतं मे यत् सर्वदं प्रभविष्यति पठनाश्रवणातृभ्यो मत्प्रीतिदायकं भवेद यं यमिच्छति तं तं तु दास्यामि स्तोत्रतोषितः भक्तिमुक्तिप्रदं भावि सर्वमान्यं युगा वरान् ब्रूदमहाभागा ददामि मनस्सेप्सितान् तपसास्तोत्रमुख्येन तुष्टो भक्र्या विशेषतः युगावुचुः यथा संरजितादेव गजानन वयं त्वया सामर्थ्यमधुलं देहि तथा दे भक्रिमुत्तमाम् कृत उवाच सदा सत्त्वयुधं मां त्वं कुरु कर्मपरायणं स्वधर्मरुचिसंयुक्तं प्रभो मोक्षार्थमुद्यतं त्रेदोवाच भुक्तिमुक्तिप्रियां मां च कुरु सत्त्वरजो तदर्थं धर्मनिष्ठत्वं गजानन नमोऽस्तु द्वाबर उवाच भुक्तिसौख्ययुधं मां त्वं कुरुधर्मपरायणं भोगबुद्धिपरार्थं च रजस्तमोयुधं प्रभो कलिरुवाच तामस्सन्देहभोगार्थमुद्यतं सतदं प्रभो विकर्मरुचिसंयुक्तं मां कुरुष्व गजाननं ते तं वदन्ति स्म युगाकर्षसमन्विताः एकैकाश्रितभावेन भो गुरुष्व निरन्तरं तेषां तद्वचनं श्रुत्वा गणेशस्तानुवाचः मेघगम्भीरया वाचा, वाचा। सर्वेभ्यः सुखदायकः श्रीगणेश उवाच लक्षांशेन कृते प्राप्ते कलिस्तत्र भविष्यति शतांशेन च सा त्रेदा द्वापरस्त्वयुधांशदः यदा त्रेदा युगम् प्राप्तं शतांशेन तदा कृतं सहस्रांशेन तत्रैव द्वापरः प्रभविष्यति अयुतांशेन पापिष्ठकलिस्तेन चरिष्यदिनसन्देहपरस्परप्रवेशनात् द्वापरे समनुप्राप्ते शतांशेन भविष्यति कलिः सहस्रभागात्रेदायुधांशं कृतं भवेद् कलौ शतांशरूपेण द्वापरः प्रभविष्यति सहस्रभागात्रेदा च लक्षांशेन कृतं भवेद् धर्माधर्मा विचारेण मोहतः स कलिस्मृदः धर्मज्ञो मोहकर्मासौ द्वापरः परिकीर्तितः यशा प्रिया सर्वत्र सम्मता मुक्तिप्रियं कृतयोगं स्वधर्मस्थं प्रकीर्तितं एवं क्रमेण ष्यथ युगा प्रिमा ज्ञा बंधीना वाछितायका सौ गणेशो गणव युगा हर्षसमयुक्ता स्वस्वर्मरा बभु ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते नाम सप्तदशोऽध्यायः ॐ